श्रीमद्भागवत् महापुराणं दशमस्कन्ध त्रिषष्टितमोऽध्यायः श्रीभगवानुवाच त्रिशिरस्ते प्रसन्नोऽस्मि व्योत्तु मे मज्ज्वराद्भयं यो नो स्मरति संवादं तस्य त्वन्न भवेद्भयम् इत्युक्तोचितमानम्य गतो मासेश्वरो ज्वरः बाणस्तु रथमारूढ प्रागाद्योऽस्यञ्जनार्दनम् ततो बाहूसहस्रेण नानायुधरोशुर मुमोच परमक्रुद्धो बाणाश्चक्रायुधे निपम् तस्यास्यतोस्त्राण्यसखिच्चक्रेण चूरणे मीनां चिक्षेद भगवान् बाहुं शाखायुवनस्पते। बाहु सुच्छिद्यमानेशो बाणस्य भगवान् भव भक्तानुकम्प्योपव्रज्य चक्रायुदमभाषत श्रीरुद्रुवाच तं हि ब्रह्मपरं ज्योतिरगूढं ब्रह्मणि वाङ्मये जम्पश्यन्त्यमलात्मान आकाशम् इव केवलं नाभिर्लभोऽग्निर्मुखम् अम्बुरेतोद्यौ चन्द्रो मनो यस्य जिगर्कयात्मा अहं समुद्रो जठिरम्भुजेन्द्रः रोमाणि यस्यौषधियोऽम्बुवाः केशाविरिञ्चो धिषणाविसर्गः प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषोल्लोककल्प तवावतारोऽयमुकुण्ठधामन् धर्मस्य गुप्तैर्जगतो भवाय वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि शब्द त्वमेक आद्य पुरुषोद्वितीयस्तुर्यस्वजिघेतुरहेतुरीश तृतीयसेथापि यथा विकारं क्षमायया सर्वगुणप्रसिद्ध्यै यथैव स्वर्यापितस्थायया स्वयाम् छायाञ्च रूपाणि च सञ्चकास्ति अयं गुणेनापिहितो गुणास्त्वम् आत्मप्रदीतो गुणिनश्च भूमन् जन्मायामोहितधियपुत्रदारगृहादिषु उन्मज्जन्ते निमज्जन्ते प्रसक्ता वृजनाल्डवे देवदत्तमिमं लब्ध्वा नृकुलो नृलोकमजितेन्द्रियः यो नादृते येत यस्त्वां प्रसीज्यते मर्त आत्मानं प्रियमीश्वरं विपर्ययन्द्रियार्थार्थं विसमत्यमृतं त्यजन् अहं ब्रह्माथ विबुधा मुनियश्चामलाशयाः सर्वात्मना प्रपन्नास्त्वाम् आत्मानं प्रेषमीश्वरं तं त्वा जगस्थित्योद्रयान्तहेतुं शमं प्रशान्तं हृहृदात्मदैवम् अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम् अयममेष्टो दयितोऽनुवरति मया भयं दत्त ममुष्यदेव सम्पाद्यतां तद्भवत प्रसादो यथा हि ते प्रसादः श्रीभगवानुवाच यदाथ भगवन्त्वन्नः करवाम प्रियं तव भवतो यद्यवसितं तन्मे साध्वनुमोदितम् अवध्योऽयं ममाप्ये स वैरोचनी सुतो सुरः प्रहलादाय वरोधत्तो दत्तो न वध्यो मे तवान्वयः दर्पोपशमनायास्य प्रविघ्नावां मया सुदितं च बलं भूरि यच्च भारायितं भुवः चत्वारोस्य भुजा सिष्टा भविष्यन्त्यजरामराः पार्षद् भवतो नकुर्दयं कुर्तञ्चिद्भयोसुरः इति लब्ध्वा भयम् कृष्णम् प्रणम्य शिरसा सुरः प्राद्युम् निम्रथमारोप्य सबद्ध्वा समुपानेत सुवाससमलङ्कृतं सपत्नीकं पुरस्कृत्य यौरुद्रानुमोदितः स्वराजधानीं समलङ्कृतां धजे सतोरणैरुक्षितमार्गचत्वरां विवेशसङ्खानकदुन्दुभिस्मनैः अभ्युद्यत पौरसुहेद्विजातिभिः य एवं कृष्णविजयं शङ्करेण च संयुगम् संस्मरेत् प्रातरुत्थाय न तस्य स्यात्पराजयः इति श्रीमद्भागवते महापुराणे पारहिष्यां शयितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धा नैनम्नां त्रिषष्टितमोऽध्यायः